तस्यां वयममित्रघ्ना निवसामो कुतो भयाः आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव माधवाः कुरु शार्दूला परामुदमवाप्नुवन् एवं वयं जरासन्धादभितः कृतकिल्बिशाः सामर्थ्यवन्तः सम्बन्धाद् गोमन्तं समुपाश्रिताः त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि योजनान्ते शतद्वारं वीरविक्रमतोरणम् अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः अष्टादशसहस्राणि भ्रातॄणां सन्ति नः कुले आहुकस्य शतं पुत्राकैकस्त्रिदशावरः चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः अहं चरौहिणे यश्च साम्बः प्रद्युम् सप्ता राजन्नन्यान् निबोध मे कृतवर्माह्यनाधृष्टिः समीकः कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दशा वज्रसंहनना वीरा वीर्यवन्तो महारथाः स्मरन्तो मध्यमं देशं वृष्णिमध्ये व्यवस्थिताः